चतुर्थकाण्डः प्रारम्भः ओञ्जालः प्रथमम् मनस्पत्त्वायस पिताधियः अग्निम् ज्योतिर्निचाय पृथिव्याध्याभरत् युक्ताय मनसा देवान् सुवर्षदोधियादिवम् बृहत् ज्योतिः करिष्यतः स पिता वयम् देवस्य र्गे जायशक्तेः इञ्जते मनः पुनरिञ्जते धियो विप्रा विप्रस्य पृहतो विपश्चितः स पितुः परिष्ुतिः देवाम् ब्रह्मपूर्वम् नमोग्वोकार्यन्निपथ्ये मसूराः श्रीमन्त्रिविश्वे अमृतस्य पुत्रालये धामानि दिव्यानि तस्थुः यस्य प्रजाणान्मर्ये जयुर्देवादेवनस्य महिमानमर्थः पार्थिवानिकसौरजांसिदेवस्य पितामहित्वदुपरिज्ञम् पदुपरिज्ञपदिम्भराय विन्योगम् धर्मः एततो केतन्नः पुनादु वाचस्पुर्वाचमध्यस्पदातिनः कार्य वर्तने ेवस्य पादविदुः प्रभवेश्विना बाहुभ्याः गायत्रेण चन्द्र सादैङ्गिरस्पदभ्रिणपिरस्पदा भुवे त्वा चन्द्रदातदेङ्गिरस्पद्भृ दिना त्वया वयम् तथा चन्द्रसादयङ्गिरस्पद्भ या जलजस्वमिदज्ञम् खात्ते नष्टुभेनत्वा चन्दिरस्पते इमामगर्भृतस्य नाम सरमालवन्ते ऋतोम् वा जन्नाद्रमवृष्ठा मनुसम्पतम् विविदे जन्म परममन्तरिक्षेनाभिप्रथिव्यामधियोनिः कुं रातभञ्जिमस्मि निरामे वृषण्सु अज्ञम्भरन्तमस्मयम् योगे योगे तमस्तरम् वादे वादे हवामहे सखा इन्द्रमोतये प्रतोख्यवक्रामन्नशस्ते रुद्रस्य काणवत्यान्मजो भूयेहि न्तरे क्षमन्विः स्वस्ति गव्यो निर्भयाभि कृण्वन् ओष्णा सयुदासः स्वदस्था यज्ञम् पुरेश्व्यमङ्गिरस्पदच्छे यज्ञम् पुरेश्व्यमङ्गिरस्पदच्छे भोग्यम् पुरेश्व्यमङ्गिरस्पद्भरिष्य भोग्यम् पुरेश्व्यमङ्गिरस्पद्भरामः अनसोऽयस्य पुरत्रा च रस्मेन वा पृथिवी आततानाम् आगत्य वाच्यद्भरः सर्वा मृथो विधोऽनुते अग्निकं सतस्ते महतिलक्ष्मणानिषीत आक्रम्य वायम् पृथिवीमग्निमिच्छात्मम् भौम्यामृत्वायनो ब्रूह्य दक्षणामतम् यावस्ते पृष्ठम् पृथिवे तदस्थमात्मान्तरिक्षरम् समुद्रस्ते योनिः चक्षुषा त्वमभिहदे वैर्ग्यस्यापुपदौ पृथिव्या हर्निम् घरिष्यन्त उपस्थे अस्याः पुनर्क्रमे द्रविणादाभाज्यर्वाकस्थलोककम् सुकृतम् पृथिव्याः ेव सुप्रतीकमग्निकम् सुबो लुहाधिनागमुत्तमे अपो देवेरुपृमधुमतेरक्ष्मार प्रजाभ्यः तासा गस्थाना दुर्जिघटामोषदरेम् मनसा कृतेन प्रत्यक्ष्यन्तम् भुवनानि विश्वाः पृथन्ति रष्टावयसा रक्षसा मनसा तद्यतस्माज्ञापतिकविरहव्यान्यक्रमेत् रथस्तत्रादित्वाग् पुरम् वयम् विप्रगम् समस्य धीमहितम् दिवे दिवे भेत्रारम्भम् गुरावतः ष्टमाभ्यस्तमस्पनस्परिभ्यस्तमोषधेभ्यस्तम् नृणाम् पृथिव्याग्नम् पुरेश्च मङ्गिरस्वत्खलामिष्पन्दग्ने सुप्रदे गमनश्रेण भावादे शिवम् प्रजाभ्योऽधिकम् सन्तम् पृथिव्या सुतस्थेज्ञम् पुरेश्यमङ्गिनस्पत्खदामि अपाम् पृष्ठमसितप्रथा पूर्वज्ञम् परेश्वरम् वर्धमानम् महाचमुष्करम् दिवमात्रया वरिणा प्रथस्व शर्मजस्थो वर्मजस्थो अच्छिद्रे बहुले मुहे बृहस्पदीदम् वसाथाम् भर्गमग्निम् पुरेश्यम् सम्भसाकम् सुमर्मिदा समेधे पुरसात्मना अज्ञमन्तर्भरिष्यन्ते ज्योतिष्पन्तमजस्रमित् पुरे श्रोतिविश्वभराः अथर्वार्त्वा प्रथमो निरमन्थरग्नेमग्ने पुष्करादव्यसर्वा निरमन्थरास्य पाधतः तमुद्वादध्यञ्जः पुत्रणीधे अथर्वणः तद्ग्रहनम् पुरन्तरम् ृहध्यो दिवागुत् ्रतष्ठस्रम्शतम् अन्धारत्रा सन्ते वायम् मातरिष्वा दधातुः यद्विलिष्टम् देवानाञ्जश्चरति दे प्राणधेन तस्मै च देवणस्तु तुभ्यम् सुजातो ज्योतिषमवरोधमातरः सुवः मातो अन्ये विश्वरूपं संयस्वपि भावसो उदिष्टस्वध्वरानो देव्या कृपा भाता ृहतापस्थित्विष्ठ्यमह सदर चिंत्रित प्रमा शिरोभवृद्वङ्गासद्भवमाज्जर्वन् सुषद्भव सुषदस्तुमग्नेः पुरेशवाहनः शिवो भवन्तरिक्षम् मा वनस्पतेन प्रयतुपादेकणिक्रन्नानसर्जातभक्पत्वाः भरण्ड्यम् पुरेश्रम् मापाद्यायुतः पुरा प्रासभवभाङ्कनिकरत्सुयुक्तो विषणाथेः समावज्ञम् पुरेश्यमाशब्दोतो महादितः गभगम् समुद्रम् अर्ज्ञायाहि वेतरहृतगुम् सत्याम् ओणदप्रतिगृह्णे ताज्ञेतगम् शिवमायन्तमभ्यत्र युष्मान् यस्य अपतेतना तेर्निषेदन्न अपदुम्पतिगम् हनत् वोटदयः प्रतिमोदर्थमेनम् पुष्पावयम् गर्भरि त्वयः प्रत्नगम् सहस्थमादो बाधस्पर्भि अमीवाः शर्मणि मग्ने रहम् गभवस्य प्रणेतौ आपोहिष्ठामयो भवस्तानभोद्ये तथातना महेरणा निचक्षसे योगशिवतमोरसस्तस्य भाजयते हरः उषतेरिव तस पादरः तस्मारङ्गमामबोजस्य अक्षया यजिन्वथा आहो जनयथा जनः पित्रस्तकंसर्ज पृथिवीम् भूमिम् च ज्योतिदासः सुजातम् जातवेदमज्ञम् वैश्वानदम् विभम् अयक्ष्वायत्त्वातकम् सृजामिष्प्रजाभ्यः श्वे त्वा देवा वैश्वानः सगुंसन्ताष्टभेन छन्दधान्यस्पदे सम्भृत्य पृथिवेतिः समेधे एषा भारुदसरिच्छुतो देवेषु रोचते दे। सगम् सृष्टाम् वसुभे रुद्रैर्धेदैः कर्मण्या मृदम् श्रीबाला कर्दुक साोखास्तो मुखाशक्तिया बाहुभ्या मदति माता पुत्र शिरोद स्वागृह्ण्वन्तु गायत्रेण चन्दनां यस्पत्पृषव्यद्रास्त्वागृण्न्तु त्रैष्पुफेन चन्ददां यस्पदं धरिक्षमस्या नित्या स्वागृण्वन्तु गागतेन चन्दनां यस्पद्यौरथ विश्वे स्वादेवावेरेष्वाकण्त्वानुष्पुफेन चन्दनाय अस्मद्विषो य ध्रुवालिधारणामरि प्रजागुं राजस्पोषङ्घो भत्यगुं सुमेर्यगुं सजाता न्ददायसामभिमुखाम् मृण्मरे योनिमग्नये ताम् पुनरेभ्यः सम्प्राणच्छति श्रव जानिति पदपस्ताधूपयन्तु गायत्रेण चन्दनाङ्गिरस्पद् रुद्रास्ताधूपयन्तु क्रेष्टुपेन चन्दराङ्गिरस्पदा रीत्यास्ताधूपयन्तु जागतेन पृथिव्या स्वरश्चेङ्गिरस्पत्खरत्वः स्वापत्ने देवे विश्वदे व्यावदे पृथिव्या स्वरश्चेङ्गिरस्पद्घे धृराः स्वादेवे विश्वदेहे व्यावदे पृथिव्या स्वरश्चेङ्गिरस्पदभीन्ददामुखे ग्नास्त्वा देवेर्विश्वः व्यावदे पृथिव्या स्वरश्चेङ्गिरस्वच्छयन्तु घे मरु यस्ता देवे विश्व व्यापते पृथिव्यास्तपजन्तो एतान्ते परिदधाम् नित्यै अभेवाम् महिनादिवम् मित्रो बभूव पुनश्रवसा पृथिवी मित्रस्य च विषे च दर्शनो देवस्य सा जुम्न चितिश्रवस्तम पास्व गुरे अपद्यम पृथिव्यातिध्रुवा पथ वस्त्वाच्छन्दन्तु गायत्रेण छन्ददाङ्गिरस्पद् रुद्रास्त्वाच्छन्दन्तु त्रेष्कृभेण छन्ददाङ्गिरस्पदादित्या स्वाच्छन्दन्तु जागतेन छन्ददाङ्गिरस्पद्विश्वे हे त्वादेवा वैष्वानराच्छन्दन् पानष्कृभेण छन्ददाङ्गिरस्पद् रस्� समास्त्वात् नमावर्धयन्तु सर्वम् दिव्येण दीतिहिलोचनेन विश्वाभातिशृथिदाः सर्वेभ्यस्वाोधय न मुच्चतिष्ठमहते दौभगार मातरिसप्ताग्ने ब्रह्माणस्ते सरः सन्तुमान्ये स्वामग्ने वृणते ब्राह्मणादिवे शिवो अग्ने संवरणे भवानः अभिमानयच्छस्वे विदेगागृह्य प्रविच्छन् इहैवाग्ने अतिधारणाजम् मात्वा निक्रन्वो त्वचितो निकारिणः क्षत्रमग्ने सुयमस्त तुभ्यमुपसर्तावर्धनान् तु तु अनिष्ठितः क्षत्रेणाग्ने विश्वगौरवस्तमित्रेणाग्नेयेतस्व जातानाम् मध्यमस्ताधिहव्य देदिहीह अतिनिहो अधिस्थितो त्रिमत्यरादिमग्ने विष्माक्यज्ञेति वितादहस्माथास्मभ्यगम् सहवीरागम् रयिन्दाः अनाधिष्यो जातवेद अधिष्ठितो विराडज्ञे क्षत्रभर्देदिहीह मानुषेर्भिरद्यपरिवाहिनो वृधे बृहस्पते सविधनेन कंस कंसित्सन्तरा कुंसंसि साधिपर्धनीहते तौ भगारष्परे नन्तु देवाः अमन्त्रभोजामस्य बृहस्पते अभिषस्ते न मञ्चः स्पर्त्यौ हतामश्विना मृत्युमस्मात् देवानामज्ञे भिषजाः ्वयन्तमसत्परि पश्यन्तो ज्योतिरुत्तरम् देवन् देवत्रासोर्गमगन्मज्ज्योतिरुत्तमम् ओर्ध्वास्य तमिधा भवन्तोऽर्ध्वा सुप्रासोतीकश्यग्नेः जमत्तमासुप्रतीकस्य सोनाः करो न पादरो विश्ववेदा देवो देवेषु देवः परा नक्तिमध्वा घृतेन मध्वायज्ञम् न कृते सुदृर्देवः सविता विश्वमारः अर्चायमे जलवता कृतेनेडानो वह्निर्नवता अर्ग्यगसृजार्जनेषु प्रयत्सु स यमानमर्णे सयी मन्द्रासु प्रयसः वदुधातनश्च श्वेरन्ते अग्नेः शोधाम् प्रापत्यमानाः ते अस्य जोषणे दिव्येरयोषासानः किमै यज्ञमवतामद्भरन्नः देव्या भवतारामद्भरम् नोग्नेर्जित्वामभिगीतम् प्रणतम् न स्पृष्ट्यम् विश्रो देवेदन्तिना तन्नस्तुरे महत्फुरम् विष्यतु नाभिस्मे वनस्पते जागरा देवेषु अर्जहव्यं समितासौ देवेशो अग्ने स्वाहाय हव्याम् विश्वे देवारञ्जषन्ताम् हिरण्यगर्भस्वश्च जातः पथिरेकासीत् दे। सदाधारपृथिवेन्द्यामुदेवायङ्कस्मै देवाय देवा हविषा देवा। विधेम यः प्राणतो निमिषतो महित्वै दरिद्रा जाजगतो बभूव अस्यद्विपदश्चतुष्परः कस्मै देवाय हविषा देवा। विधेम यस्य छायामृतय्यश्च मृत्यः कस्मै देवाय हमिडाभिधेवा यस्येमे हिमवन्तो महित्वायस्य समुद्रयोसगासाः यस्येमा प्रतिशो यस्य बाहो कस्मै देवाय हमिडाभिधेमक्रन्दसि अवदातस्तभाे यत्राधितो नेवाय हविडाभिधे रुग् पृथिवी च दृढे न कस्मै देवाय हविडा विधेम आपो हयम् महतेर्विशवायम् लक्षम् दधाना जनयन्तिरग्नि ततो देवानाम् निरवर्तता तुलेखकस्मै देवाय हविडा यस्य चापो महिना पर्यपः सद्दक्षन्तधा न जनयन्तिरज्ञिम् यो देवेऽस्मभिदेवये काले कस्मै देवाय हि आगोतिमग्निम् प्रेजज्ञस्वाहामेधामग्निम् प्रेजज्ञस्वाहाज्ञातमग्निम् प्रेजर्गस्वाहा वाचो विधजमग्निम् प्रेजज्ञस्वाहा प्रजापतजेव स्वाहाग्नेव स्वाहा विश्वे देवस्थ नेतुमत्तोपेतख्यम् विश्वे राजयुरुद्धयज्ञम् नष्यते स्वाहा मासुभित्था मासुषो अम्बष्णुवेदकस्वाग्निश्चेदम् करिष्यथ पृथिवेस्तया स्वधया कृता देवानामिष्टात्मदिः यज्ञे अस्मिन् भेदि एता देवम् निभेत्यै ब्रह्म सर्पिरात्रोः तामरेण्यः सहजस्पुत्र अद्भुत राग्या योजना श्रीरत्म मातरशापस्थ विश्वाहान्य वजुना मैनामद्विजान्तरस्यागुः ज्योतिर्विभाे अन्तरज्ञेरुदात्त्वमुखादि सदने स्वे अस्यात्वम्भरजातमञ्जातवेदः शिवो भव शिवो भो त्वाग्नेऽोदेन यदानि कानि चा ते दारूणि दध्वसि तदस्तुतोभ्यमधृतन्तव्युषस्वजविष्ठ्य यदत्युपदे सर्पदि सर्वम् तदस्तुते घृतन्तव्युषस्वजविष्ठ्या रात्रिकम् रात्रिमप्रजातम् भवन्तो ृथिव्याः समिधानभक्तिगौ राजस्पोचारविभते हवामहे इरम् मदम् मृगदर्थ निरन्तम् चेतारमग्निम् पदनादुताम् या सेना अभेत्तरेण व्याचनेर्वणा उता ये स्तेना येषुस्तयस्ते अग्नेऽपि ष्ठाभ्याम् मलिम्भो जम्भेस्तवस्तागस्त्वम् खाद सुखादिता ये जने तु मलिम्भवस्तेनातस्तवने एकक्षेष्मधारस्तागस्ते तथा विजम्भयोः न अस्मभ्यमराधीयाभ्यश्च नाद्वेषते जनः निन्दाद्य अस्मान् दिप्सा च सर्वम् तम् हस्मसा कुरु सगंसितम् मे ब्रह्म सगंसितम् वैर्यम्बलम् सितम् क्षत्रम् तिष्ठु यस्याहमस्ति पुरोहितः उदे राम् बाहु अतिरमुद्वर्चबुदो बलम् क्षिणो विडृम्भणामित्रानुन्नया विस्वाहुम् अहम् ृता भवद्वयोत्सुरेताः विश्वारोपाणि पतिमुञ्चदे ने भद्रम् दिपते च दुष्पतेवरेऽज्ञानप्रयाणपुषसो विराजते न कर्तोषा सा समनसा विरूपेण धापलेते स्वमेकम् समेति क्षामा रुक्मा अन्तर्विभातिरे वा अल्न्धालेन्द्रविनोदाः सुपर्णोचि गरुत्मान् त्रिवृत्त्रे शिरोगायत्रम् चक्षुस्तो महात्मादामुत् दा। धनोपामदेव्यम् बृहद्रथम् तरे पक्षौ यज्ञायज्ञम् पुच्छन्दा यस्य गानिधिष्ठया शफायजोगुम् शिनाम सुपर्णोचि गरुत्मान् दिमम् गच्छ सुभक्पदा यज्ञमद्फलम् विश्वतः परिभूरसि स यद्देवे तु मयास्ते मयो भवभूतयः सन्ति दाशिषेः साभिर्नो विता भव अर्मा भवः स्वम्नः स्वा मया ते धामानि तत्स पितरेणम् भर्गो देवस्य धीमहि नः प्रचोदयात् अजित्ति यच्च क्रमादे व्यजने दीने द्रक्षे प्रभूते पौरुषत्वताः मानुषेषु चत्पन्नो अत्र सुपतादनाकशः चेतस्वती आवेरवे कन्या चित्रायः सरस्पती वीरवक्तेधियम् धाद् नाभिरच्छिद्रकुम् शरणगम् सजोषादुराधरणम् क्रिमते शर्मजगुंसरे पोषागा अन्वेतुनः पोषारक्षत्वतः पोषावाजगुंसनातुनः शुक्रन्ते अन्यद्य जयन्ते अन्यद्विषलोके अहनेद्यौरिवासि विवाहि माया अवधिस्वधावो भद्रादे पूषन् विहरादिवस्तुतपसो महित्वा नागन्तस्तुरक्षिरे तदः पिष्टावद्विषणम् मदच्छुतम् वयोनसिदन्नसि परिषिषप्रिये प्रचित्रमर्कम् कृणते तुनाय मारुतायश्वतवदे समध्वम् ये सः सुम् विदहता सहन्ते वेजते अग्ने पृथिवेपेभ्यः विश्वे देवा विश्वे देवाः व्यावारपृथिवे इमम् सिद्धमद्यति विस्पृशम् यज्ञम् देवेषु यच्छता प्रभोर्वजवितव्येभ्यक्रमद्धम् सदने तस्य आरोपति अग्निव्यस्तोमेन बोधय विधानो अमर्त्यम् हव्यादेवेणो दधते स हव्यवाणवर्त्यपुषिद्धूतश्च दोहितः अग्न्यर्थिजा समृण्वते चन्ना भवन्त वादे वादे ओ